श्रीहरिगे नमः अथ सप्तमोऽध्यायः श्रीशुक उवाच मान्धातो पुत्रप्रवरोऽम्भरीशः प्रकीर्तितः पितामहेन प्रवृतो यौवनः स्वच्छतत्सुतः हारीतस्तस्य पुत्रो भू मान्धादृप्रवरायि मेम् नर्मदा भ्रातृभिर्धत्ता पुरुकुत्साययोरगैहे तया रसातलं नीतो भुजगेन्द्रप्रयुक्तया गन्धर्वानवनी तत्र वध्यान् वै विष्णुशक्तिधृक् नाकालब्धवरः सर्पाधभयं स्मरधामितम् त्रसद्यस्युः पौरुकुत्सो देहकृस्तत्सुतस्तस्मो तरुणोत त्रिभन्धनः तस्य सत्तव्रतः पुत्रस्त्रीसङ्कुरति विश्रुतः प्राप्तश्चाण्डालतां साभाद्गुरोः कौसिक तेजसा दिविदृश्यते पातितो वाक्सिरा देवैस्तेनैव संविधो बलात् त्रैशङ्कवो हरिश्चन्द्रो विश्वामित्रवसिष्ठयोः यन्निमित्तमभूद्युद्धं पक्षिणोर्बहुवार्षिकं सो नपत्यो विशन्नात्मा नारदस्योपदेशतः वरुणं शरणं यातः पुत्रो मे जायतां प्रभो यदि वीरो महाराज तेनैव त्वां व्यजेयिते ततेति वरुणो नास्त्य पुत्रो जातस्तुरोहितः जातस्सुतोह्यनेनाङ्गमां यजस्वेति शोभ्रवीत् यथा बसोर्निर्धसव्यथातमेद्यो भवेदिते निर्धसे आगत्य यजस्व इत्यागशोब्रवीत् दन्तापशो जाता दन्ता यजस्वेति सप्रत्याघातशोब्रवीत् यथा पतन्त्यस्य धन्ता अथ मेद्यो भवेदिति पशोर्निपतिता धन्ता यजस्वेत्याघशो ब्रवीत् यधा जायन्ते तपशुः शुशिः पुनर्जाता यजस्वेति सान्नाखिको यथा राजन् राजन् इति पुत्रानुरागेण स्नेहयन्त्रतचेतसा लं वञ्चयता तं तमोक्तो देवस्तमैक्षतः रोहितस्ततभिज्ञाय पितुः कर्म चिकर्षितं प्राणप्रेसोऽर्धनुष्पाणिर्यं प्रत्यपद्यत पितरं वरुणग्रस्तं श्रुत्वा जातमहोधरं रोहितो ग्राममे यायधमिन्द्र प्रत्यषेदथ पुण्यं तीर्थक्षे ेवणैः रोहितायाधि तच्छक्रतोऽप्यरण्येव सत्समाम् एवं द्वितीये तृतीये चतुर्थे पञ्चमे तथा अभ्येत्याभ्येत्यस्तभिरो विव्रो भूत्वाहवृत्रहा षष्टं संवत्सरं तत्र चरित्वारोहितः पुरे मध्यमं सुतं सुनस्येपं पशुं पित्रय हरिश्चन्द्रो महायसखा मुग्धोधरो यजन् देवान् वरुणादीन् महत्कतहान् विश्वामित्रोभवत्तस्मिन् होताशाध्वर्योरात्मवान् जमदग्निरभुद्ब्रह्मा वसिष्ठो यास्य सामगहा तस्मै तुष्टो धता विन्द्र शातगौम् भयं रथं सोनस्ये पश्य महात्म्यम् उपरिष्टात् प्रचक्ष्यते सत्यसारां धृतिं दृष्ट्वा सा पर्यस्य च भूपतेः विश्वामित्रोभृशम् प्रीतोद्धतावविहतां गतिं मनःपृथिव्यां तामद्भ्यस्तेजसोपोनिलेन तत् के वायुम् धारयन्स्तस्य मनी बूधा धौतं महात्मने तस्मिन् ज्ञानकलां ध्यात्वा दयाज्ञानं विनिर्दहन् हित्वा तां स्वेन भावेन निर्वाणसुखसंविधा अनिर्देश्यप्रतर्क्येण तस्थो विध्वस्तबन्धनः इति श्रीमद्भागवते महापुराणे नवमस्कन्ते हरिश्चन्द्रोपाज्ञानं नाम सप्तमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्दा सद्गुरुनाथमगराजकी जयम्